श्रीमद्भागवत महापुराणं नौ स्कन्धः अस्यतुर्थोऽध्यायः नाभाग और अम्बरीशकी कथा शीशोकुवाच नाभागो न भुगापत्यं यं ततं भ्रातरकविं यविष्ठं व्यभजन्दायं ब्रह्मचारिणमागतम् भ्रातरो भान्त किं मह्यं भजाम तव त्वां ममार्यास्तां भाङ्क्षुर्मा पुत्रकतदातिथाः इमे अङ्गिरस सत्रमासतेऽद्य सुमेधस षष्ठं षष्ठमुपैत्याः कविमुह्यन्ति कर्मणि तां स्वं संशयं सुक्ते द्वेवै स्वदेवे महात्मनः ते स्वर्यन्तो धनं सत्र परिशेषीतमात्मनः दास्यन्ति ते तान् गच्छ तथा सकृतवान् यथां तस्मै दत्त्वा यज स्वर्गं ते सत्र परिशेषितम् तं कश्चित् स्वीकरिष्यन्तं पुरुषकृष्णदर्शनः वाचोत्तरतोऽभ्येत्य मवेदं वास्तु कं वशो मवेदमृषिभिर्दत्तम् इति तर्हि स्वमानवः शान्नौ च पितरि प्रश्नपृष्टवान् पितरं तथा यज्ञवास्तु गतं सर्वमुच्छिष्टमृष क्वचेन् चक्रुर्विभागं रुद्राय स देव सर्वमर्हते नाभागस्तं प्रणम्याह तमेश किल वास्तुकम् इत्याह पिता ब्रह्म शिरसा प्रसादये यत्ते पितावदद्धर्मं त्वं च सत्यं प्रभाससे ददामि ते मन्त्रदिशे ज्ञानं ब्रह्मसनातनम् गृहाणद्रविणं दत्तं मत्सत्रे परिशेषितम् इत्युक्त्वान्तर्हितो रुद्रो भगवान सत्यवत्सलः य एतत्संस्मरेत् प्रातः सायं च कविर्भवितमन्त्रज्ञो गतिं चैव तथात्मनः नाभागं नाभागादं मृषोन्भुन्महाभागवत कृते नापृसद्ब्रह्मशापोऽपि यं न प्रतिहत राजवाच भगवत् श्रोतुमिच्छामि धीमतः न प्राभूद यत् निर्मुक्तो ब्रह्मदण्डो दुरत्यः शिशोकुवाच अम्बरीशो महाभाग महिम् अव्ययां च सियं लब्ध्वा विभुवं चातुलं भुवि मेनेति दुर्लभं पुंसां सर्वं तत्स्वप्नसंस्तुतं विद्वान् विभुवनिर्वाणं तमोविशति यत्पुमान् वासुदेवे भगवति तद्भक्तेषु च साधुषु प्राप्तो भावं परं विश्वं येनेदं दोष्टभस्मितं स वै मनः कृष्णपदारविन्दयो वचांशु वैकुण्ठगुणानुवर्णने करो हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराचितुसत्कथोदये मुकु मुकुन्दलिङ्गाले दर्शने दिशौ तद्धृत्यगात्स्पर्शेऽङ्गमम् घ्राणं च तत्पादसरोजसौरभे श्रीमद्दुलस्यारसनां तदर्पिते पादौ हरे क्षेत्रपदानुसर्पणे शिरोषिषिके सपदाभिवन्दने कामं च दासेन तु कामकाम्यां यतोत्तमश्लोकजनाश्रया रतिः एवं सदा कर्मकलापमात्मन परेधियज्ञे भगवत्यथोक्षते सर्वात्मभावं विदधन्महीमिमां तन्निष्टविभ्राभितशशास इजे समेधैरधियज्ञमीश्वरं महाभिभूत्योपचितां गदक्षिणैः ततैर्वसिष्ठासितगौतमादिभिर्धन्वन्यमिस्रोतमशौ सरस्वतिम् यस्य क्रतुषु गीर्वाणे सदस्या ऋत्वियोजनाः तुल्यरूपास्यान्विषां द्यदिष्यन्त सुवासस स्वर्गो न प्रार्थितो यस्य मुनुजैरमरप्रियः श्रृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितं समर्थयन्ति तान् कामा स्वाराज्यां परिभाविताः दुर्लभानापि सिद्धानां मुकुन्दं हृदि पश्यतः स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः सधर्वेण हरिं प्रीडन् सङ्गान् सर्वाथनेजहौ गृहे सुदारेषु ते सुबन्धुषु दीपोत्तमस्यन्दनवाजिपद्यषु अथय्यरत्नाभरणायुधादिषु अनन्तकोशे स्वकरोदसंस्मृतं तस्मादारेश्चक्रं प्रत्यनेकभयावहुम् एकान्तभक्तिभावेन प्रीतो भीत्याभिरक्षणम् भी आरिराधेशु कृष्णं महिष्यातुल्यशीलयां युक्तसांवत्सरं वीरोदसार द्वादशी वृतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः स्नातः कदाचित्कालिन्द्यां हरिं मधुवनेऽरचयत महाभिषेकविधिना सर्वोपस्करसम्पदाम् अभिषिच्याम्बराकल्पये गन्धमाल्यार्हणादिभिं तद्गन्तान्तर्भावेन पूजयामा च केशवम् ब्राह्मणाश्च महाभागान् सिद्धार्थानपि भक्तितः गवां रुक्मविषालीनां नृप्याङ्घ्रीणां सुवाससां पयाशीलवयोरूं पवस्वोपस्करसम्पदां प्रां त्राणोत साधुविप्रेभ्यो गृहे शून्यभूतानि सन् भोजयित्वा स्वाद्वन्नं गुणवत्तमम् लब्धकामैरनुज्ञातपारणायोपचक्रमे तस्य तर्ह्य तिथिः साक्षाद्दुर्वासा भगवानभू तमानर्चातिथिं भूपप्रत्युत्थानाशंसनार्हणै ययाचेभ्य वहाराय पादमूलमुपागतः